श्रीमद्भागवतमहापुराणं चतुर्ष स्कन्धः अथ सप्तदशोऽध्यायः मैत्रे उवाच एवं स भगवान् वैण्याख्यापितो गुणकर्मभिः छन्दयामासु तान् कामै प्रतिपूज्याभिनन्द्य ब्राह्मणं प्रमुखान् वर्णान् भृत्यामात्मा राजानपदां श्रेणी प्रकृति सम्पूजयत विदिरुवाच कस्माद्धर्गोरूपं धरिद्रे बहुरूपिणी यां दुदोह पृतुस्तत्र को वस्वो दोहनं चकिम्, प्रकृत्या विसमा देवी कृता तेन समाकथं तस्य मेध्यं भयं देव कस्य हेतोरपाहरत् सनत्कुमारा भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् लब्ध्वा ज्ञानं स विज्ञानं राजर्षिकां गतिं गतः यच्चन्यदपि कृष्णश्च भवान् भगवत प्रभो श्रवस स्रवस पुण्यं पर्वदेहकथाश्रयं भक्ताय में मेनुरक्ताय तव चाथोऽक्षयस्य च वक्तुर्महसि योद्धूषबवन्ध्यद्वैन्यरूपेण गामि मां सूतुवाच चोदितो विदुरेणैवं वासुदेव कथां प्रति प्रसस्य तं प्रीतमना मैत्रेयप्रत्यभासत मैत्रीवाच यदाभिचिक्ता पृथुरङ्गविप्रैरामत्रितो जनतायाश्च पालः प्रजानिरन्ध्ये चितिवृष्टयेत्य चिच्छामदेहाम्पतिमभ्यवोचन् वयं राजन्जाठरेणाभितप्ता यथाग्निनाकोटरस्तेन वृक्षाः त्वामद्य जाता शरणं शरण्यम् यसाधितो वृत्तिकरप्रतीर्णः तन्नो भवानिहसू रातवेम् क्षुदार्दितानां नरदेवदेव यावन्नमह उद्धितोर्जा वार्तापते स्वं किल लोकपालः मैत्रे उवाच पृथुप्रजानां करुणं निशम्य परिदेवितं दीर्घं दध्य कुरु श्रेष्ठनिमित्तं शोन्पद्यत इति व्यवसितो बुद्ध्यां प्रगृहीतशरासनः सन्दतेखं भूमे क्रुद्धस्त्रीपुरः यथा प्रवेपमाना धरणीनिशाम्योद्दायुधं च तम गौ सत्यपाद्रुवद्भीता मृगीव मृगयुद्धृता तामन्वधावत्तद्वैन्यः कुपितोद्यपिक्षणः शरं धनुषि सन्धाय यत्र यत्र पलायते सादिसो विदसो विदुषो देवी रोदसी चान्तरं तयोः धावन्ति तत्र तत्रैणं ददर्शानोद्यतायुधम् लोकेनाविन्दतत्राणम् दैन्यामृद्योरिव प्रजाः त्रस्ता तदानुवृते श्रियेन विदूयताम् उचमहाभागम् त्राहि मामपि भूतानां भवान् स त्वं जिघांसति कस्माद्दीनानां कृत किल्विषाम् अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः प्रहरन्ते न वैस्त्री सुकृतागष्वपीजन्तवः कुमित्वद्विधा राजन्करुणादीनवशलाः मां विपाटयाजरां नावं यत्र विस्मं प्रतिष्ठितम् आत्मानं च प्रजास्ये मा कथं भसि धास्यसे ऋतिरुवाच वसि त्वां वसिष्यामि मत्स्यासन्पराङ्मुखीं भागं वरिष्यामृग्धे न तनोति च नो वशो यवसं जग्ध्यनुदिनं दैवदो दोग्धौ धयः तस्यामेवं हि दण्डो नातृ तं खल्वौषधि बीजानि प्राक्सृष्टानि स्वयंभुवा न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दनी अमूषां चुद्परितानां आर्तानां परिदेवितं समस्यामीं समयेष्यामीं मद्बाणे भिन्नाया सो पुमानयो दशामानयोषे दुतक्लीब भूते सुनिक्रोशो निपाणां तद्बधो वध त्वां सब्धां दुर्मदां नित्वा मायागां तिलससरैः आत्मयोगबलेदेमाधारयिष्याम्यहं प्रजाः एवं मन्यो मयीं मुरतिं कृतान्तमिव बिभ्रतं प्रणता प्राञ्जलिप्राह महि सञ्जातवेपथो धरोवाच नमः परस्मै पुरुषाय मायया विन्यस्तनातनवे गुणात्मने नमः स्वरूपानुभवेन निर्धृत द्रव्यक्रियाकारकविभ्रमोर्मये येनाहमात्मायतनं विनिर्मिता धात्रायतोऽयं गुणसर्गसङ्ग्रह त एव मां हन्तु मुदायुधस्वरानुपस्थितोऽन्यं शरणं क्रमाशये य एतदावंसिंसिरचां चिराजनं स्वमायात्मां श्रेया वितर्कयां तयैव सोऽयं किल गोप्तुमुद्यत कथं नु मां धर्मपरो जिघांसति रोनम्बते सस्य समीहितं तन्मायया दुर्यया कृतात्मभि न लक्ष्यते यत्त्वकरोत् कारयन् योऽक ईश्वरः सर्गादियोशानुरुण रद्धिशक्तिभिः द्रव्यक्रियाकारकचेतनात्मभिः तस्मै समुन्न निरुद्धशक्तये नमः परस्मै पुरुषाय वेदसे स वै ज अपामुपस्थे मैना व्यवस्थिता प्रजाभवानद्यरिक्षि सुलं सवीरमृतिसमभुद्धराधरो यो मां पयस्योग्रसरो जिघांसति नूनं जनैरीहितमीश्वराणाम् अस्मद्विधये सङ्गुलसर्गमाययां न ज्ञायते मोहितचित्तवर्त्मवे तेभ्यो नमो वीर्ययस्करस्कृतेभ्य इति श्रीमद्भागवते महापुराणे प्रपंसां चयितायां चतुष्कन्देऽं पितुविजये धरित्री निग्रहोणां सन्ततसोऽध्यायः